श्रीगुरुभ्यो नमः हरिः ओम् अन्नपूर्णोपनिषत् अध्यायम् टु निदाख उवाच सङ्घः कीदृश इत्युक्तकश्च बन्धाय देहिनां कश्च मोक्षाय कथितकथं त्वेष दे। देह विभागैक परित्यागेन भावना देहमात्रे हि विश्वाससङ्गो बन्धाय कथ्यते सर्वमात्मेदमत्राहं किं वाञ्छामि त्यजामि किम् इत्यसङ्गस्थितिं विद्धि जीवन्मुक्ततनुस्थितां नाहमस्मि न चान्योऽस्ति न चायं न च नेतरः सो सोऽसङ्ग इति सम्भोक्तो ब्रह्मास्मीत्येव सर्वदा नाभिनन्दति नैष्कर्म्यं ना न ना कर्म स्वनुषज्जते सुसमो यः परित्यागी सोऽसंसक्त इति स्मृतः सर्वकर्मफलादीनां मनसैव सोऽसक स्मृतः असङ्कल्पे न सकलाश्चेष्टाना विजृम्भिताः चिकित्सिता भवन्तीह श्रेयसम्पादयन्ति न सक्रमिह चेष्टासु न चिन्तासु न वस्तुषु न गमागम गमागमचेष्टासु न कालकलनासु च केवलं चिदि विश्रम्य किञ्चित् चैत्यावलम्ब्यपि सर्वत्र नीरसमिह तिष्ठत्यात्मरसं मनः व्यवहारमिदम् मा करोतु करोतु वा अकुर्वन्वापि कुर्वन्वा जीवस्वात्मरतिक्रियः अथवा तमी त्यवा चैताचित्खन जीवस्तिषति शाद्वलिवाम चित्ते चैत्यदशानेीणचेत सोच्यदे शांतकलना जाग्रत सुषुता येषा निदाख सौषुप्तस्थितिरभ्यासयो गतः प्रौढा सति तुरीयेति कथिता तत्त्वकोविदैः अस्यां तुरीयावस्थायां स्थितिं प्राप्या विनाशिनीम् आनन्दैकान्तशीलत्वा दनानन्दपदं गतः नानन्दमहानन्दकालातीतस्ततो हि मुक्त इत्युच्यते योगी तुर्यातीदपदम् दा गतः जलगद जलगदसैन्धवखण्डवन्महात्मा जडा जडदृशोर्मध्ये यत्तत्त्वं पारमार्थिकम् अनुभूतिमयं तस्मात् सारं ब्रह्मेदि कथ्यते दृश्यसंवलितो बन्धस्तन्मुक्तौ मुक्तिरुच्यते द्रव्यदर्शनसम्बन्धे यानुभूदिरनामया तामवष्टभ्यतिष्ठत्वं सौषुप्तीं भजदे स्थितिं सैव तुल्यत्वमाप्नोदि तस्यां दृष्टिं स्थिराम् कुरु आत्मा स्थूलो न चैवानुर्न न चेतनो न च जडो न चैवासन्न सन्मयः नाहं नान्यो न ना चैवैको न चानेको द्वयोव्ययः यदीदं दृश्यदां प्राप्तं मनः सर्वेन्द्रियास्पदं दृश्यदर्शनसम्बन्धे यत्सुखं परमार्थिकम् तदतीदं पदं यस्मात् तन्न किञ्चिदि वैव तद न मोक्षो न भ सः पृष्ठे न पादाले न भूतले चेदः क्षयो मोक्ष इदीष्यते मोक्षो मेस्त्विति चिन्तान्तर्जादा चेदुद्धितं मनः मननोद्धे मनस्यैष बन्धः आत्मन्यादीदे सर्वस्मात् सर्वरूपेध वा तदे को बन्धकश्च वा मोक्षो निर्मूलं मननं कुरु अध्यात्मरधिराशान्तः प्राप्तानुत्तमविश्रान्तिर्न किञ्चिदिह वाञ्छति सर्वाधिष्ठानसन्मात्रे निर्विकल्पे चिदात्मनि यो जीवति गतस्नेहः स उच्यते नापेक्षते भविष्यच्च वर्तमानेन तिष्ठति न संस्मरत्यतीतं च सर्वमेव करोति च अनुबन्धपरेजन्तावसं सर्गमनाः सदा भक्ते भक्तसमाचरषठे षठ इव स्थितः बालो बालेषु वृद्धेषु वृद्धो धीरेषु धैर्यवान युवा यौवनवृत्तेषु दुःखितेषु सुदुःखधीः धीरधीरुदिदानन्दः प्यशलः पुण्यकीर्तनः प्राज्ञप्रसन्नमधुरो दैन्यादपगदाशयः अभ्यासेन परिस्पन्दे प्राणानां क्षयमागते मनः यदो वाचो निवर्तन्ते विकल्पकलनान्विताः विकल्पसंक्षयाजन्तोः पदं तदवशिष्यते अनाद्यन्तावभासात्मा परमात्मैव विद्यते इत्ये इत्येतन्निश्चयं स्वारं सम्यग्ज्ञानं विदुर्बुधाः यथा भूतार्थदर्शित्वमेतावद्भुवनत्रये यदात्मैव जगत् सर्वमिति निश्चित्यपूर्णता सर्वमात्मैव कौ दृष्टौ भावाभावौ क्व वा क्व बन्धमोक्षकलने ब्रह्मैवेदं विदृम्भदे सर्वमेकं परं व्योम को मोक्षकस्य बन्धदा ब्रह्मेदं बृंहिताकारं बृहद् बृहदवस्थितं दूरादस्तमिदद्वित्वं भवात्मैव त्वमात्मना सम्यगालोकिते रूपे काष्ठपाषाण वाससाम् मनागपिनभेदोऽस्ति क्वासि सङ्कल्पनोन्मुखः आदावन्देज संशान्तस्वरूपमविनाशियत वस्तूनामात्मनश्चैदत्तन्मयो भव सर्वदा द्वैताद्वैत स्रतरात्म चितैरीव वीचिभ आपत्क परशुपराया निवृते पदम शुद्धमात्मा लिंग्य निमंदस्तया धिया यस्िधस्त क भोगो बाधयिद क्षम कृतस्वारविचारस्य मनो भोगादयोरयः मनागपिनभिन्दन्तिशैलं मन्दानिला इव नानात्वमस्ति कलनासु न वस्तुतोन्तर्नानाविधासु सरसीव जलादिवान्यत इत्येकनिश्चयमयपुरुषो विमुक्त इत्युच च्यते समवलोकितसम्यगर्थः इति द्वितीयोऽध्यायः ओ